अशीतितमोऽध्यायः वैशंपायन उवाच तमागतमथो राजा विदुरम् दीर्घदर्शिनम् साशङ्क इव पप्रच्छ विकासुतः धतराष्ट्र उवाच कथम् गच्छति कौन्तेयो धर्मपुत्रो युधिष्ठिरः धीमसेनः सव्यसाची मातृपुत्रौ च पाण्डवौ धौन्यश्चैव कथम् शक्तर् द्रौपदी च यशस्विनी श्रोतुमिच्छाम्यहम् सर्वम् तेषाम् शंसविचेष्टितम् विदुर उवाच वस्त्रेण संवृप्य मुखम् कुन्ती पुत्रो युधिष्ठिरः बाहू विशालौ सम्पश्यन् भीमो गच्छति पाण्डवः सिकतापपन्सव्यसाची राजानमनुगच्छति माद्री पुत्रस्सह देवो मुखमालिप्य गच्छति पांसूपलिप्त सर्वाङ्गो न कुलश्चित्त बिह्वलः लोके राजानमनुगच्छति कृष्णा तु केशष्प्रच्छाद्य मुखमायत लोचना दर्शनीया प्ररुदती धौम्यो रौद्राणि सामानि याम्यानि च विशाम्पते गायन् गच्छति मार्गेषु कुशानादाय पाणिना धृतराष्ट्र उवाच विविधानीहरूपाणि कृत्वा गच्छन्ति पाण्डवाः तन्ममाचक्ष्व विदुर कस्मादेवं रजन्तिते। ते विदुर उवाच निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च न धर्माचलते बुद्धिर्धर्मराजस्य धीमतः